श्रीहरये नमः अथ चतुर्विंशोऽध्यायः मैत्रेय उवाच विजिद्धा स्मो दिराजासीत् प्रतुपुत्रः प्रतुश्रवाः यवीभ्यो दधा काष्ठा भ्रातृभ्यो भ्रातृवत्सलाः हर्यशायाधिशस्प्राचीं धूम्रकेशाय दक्षिणा प्रतीचीं वृकसंज्ञाय तुर्यतां द्रविणसेविभुः अन्तर्धानगतिं चक्रात् लब्ध्व अन्तर्धानसञ्जितः अपत्यत्रयमाधत्त शिकण्ठिं यां सुसम्मतं भावः भवमानश्च सुचिरित्यग्नयः पुरा वसिष्ठशापादुत्पन्ना पुनर्योगतिं गताः अन्तर्धानो न भस्वत्याम् अविर्धानम् अविन्दत ययेन्द्रमस्वहर्तारां विद्वानपि न जग्नीवान् राज्ञा मृत्तिं कराधान दण्टसुल्घातिदारुणां मन्यमानो दीर्घसत्र व्याजेन संपुरुषं परमात्मानं तत्राभिहंसम्पुरुषं परमात्मानम् कुसेलेन कुशेलेन समाधिना हविर्धानात् हविर्धानि विदुरासुतषट्सुतान् बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतं बर्हिषत्सु महाभोगो हाविर्धानिः प्रजापतिः क्रियाकाण्डेषु निष्णादो योगेषु च कुरुध्वः यस्येधं देवयजनं, अनुज्ञत्वं वितन्वतः प्राचीनाग्रैर्कुशैराशीत् आश्रुद्धं वसुधातलं सामुत्रीं देवदेवोग्धा उपयेम सधत्रुधिं यां वीक्षचारु सर्वाङ्गीं किशोरीं सुष्ठु अवलङ्कृतां परिक्रमन्तीमुद्वाहे चघमेघ्नि सुखीमिव विबुधा मुनिसिद्ध मुनिसिद्धनरोरगाः विजिता सूर्यया दिक्षुं क्वणयन्त्यैव नूपुरै प्राचीनबर्हिषः पुत्रा सधत्रो दशा भवन् तुल्यनामव्रता सर्वे धर्मस्नाता प्रचेतसः पित्राधिष्ठा प्रजा तपसेर्न भवमाविशन् दशवर्षः सहस्राणि तपसार्चंस्तपतिं यदुक्तं पदि दृष्टेन गिरिशेन प्रसीदता जबन्तस्य पूजयन्तस्य संयुताः पितुरौ वाचां प्रचेदसां गिरिद्रेण यथासीत्पतिसङ्गमः यदुदाहरः प्रीतस्तन्तो वधार्तवन् सङ्गमः खलु शिवेनेकशरीरिणा दुर्लभो मुनयो धत्यो असङ्गत्यम् अभीत्सितम् आत्मा रामोऽपि यस्त्वस्य लोककल्पस्य विचरति घोरया भगवान् भव मैत्रेयौ प्रचेतसः पितुर्वाक्यं शिरशाधाय साधवः दिशं प्रतीचीं प्रययुस्तप शादृतश्चेतशः समुद्रमुपविस्तीर्णम् अपश्यन् सुमहत्सरः महन्नन स्वच्छं प्रसन्नसलिलाशयं नीलक्रोत्पलाम्बुज कल्हारेन्धीवराकरं हंससारसचक्राह्व कारण्डवनिकूजितं मत्तभ्रमरसौस्वर्य कृष्टरोम पद्मघोसर ज्योतिषो विषिपत्पवनोत्सवं तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् विशिस्म्यो राजपुत्रास्ते मृदङ्कपणवाद्यनु तर्ह्येव सरसस्तस्मात् निष्क्रामन्तं सहानुघम् उभगीयमानम् अमरप्रवरं विबुधानुगैः तप्तहेमनिकायाभं क्षितिकण्ठं त्रिलोचनम् प्रसादसुमुखं वीक्ष्य प्रणे मोर्जातकौतुकाः सतान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः धर्मज्ञानशीलसम्पन्नान् प्रीतः प्रीतानुवाचः श्रीरुद्रवाच यूयं वेदिशतः पुत्र विदितं वश्चिकीर्षितम् अनुग्राहाय भद्रं वा एवं मे दर्शनं कृतं यः परं रंह स साक्षात् त्रिगुणाजीवसङ्गिदात् भगवन्तं वासुदेहं प्रपन्नस्सः मे स्वधर्मनिष्ठः विरिञ्चतामेति ततः परं अव्याकृतं भागवतोत वैष्णवं पदं यथाहं विभुता अथ भागवता यूयं प्रियां स्तभगवान् यथा न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हि चेत् इदं विविक्तं जप्तव्यम् पवित्रं मङ्गलं परं निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः वा मैत्रेयौ वाच इत्यनुक्रोशहृदयो भगवानागतान् शिवः पदाञ्जलिन् राजपुत्रान् श्रीरुद्र उवाच जितं त आत्मविधुर्यस्वस्तये स्वस्तिरस्तु मे भवता राधसा राधं सर्वं सा आत्मने नमः नमः पङ्गजनाभाय भूतस्सूक्ष्मेन्द्रियात्मने वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषें शङ्कर्षणाय सूक्ष्माय दुरन्तायन्तकाय च नमो प्रद्युम्नाय प्रद्युम्नायान्तरात्मने नमो नमो निरुद्धाय कृषि केशेन्द्रियात्मने नमः परमहंसाय पूर्णाय निभृतात्मने स्वर्गाभवर्गद्वाराय नित्यं सुशिषधे नमः नमो हिरण्यवीर्याय तन्तवे नमः भूर्जयि क्षेत्रय्याः पतये यज्ञरेतसे तृप्तिधाय च जीवानां नमः सर्वरसात्मने सर्वसत्त्वात्मदेहाय विशेषाय स्तवीयसे नमस्त्रैलोक्यपालाय सहवोजो बलाय च अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने नमः पुण्याय लोकाय अमुष्मै भूरि वर्चसे प्रवृत्तायन न वृत्ताय पितृदेवाय कर्मणे नमो धर्मविपाकाय मृत्यवे दुःखदाय च नमस्त आसिषामि मनवे मानवे कारणात्मने नमो धर्माय बृहते कृष्णाय कुण्ठमेतसे पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च शक्तित्रयसमेधाय मीडुषेऽहङ्कृतात्मने चेत आकूतिरूपाय नमोवाचो विभूतये दर्शनं नो देहि भागवतार्चितं रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणार्जनं स्निग्धप्रावृद्गणश्यामं सर्वसौन्दर्यसङ्ग्रहं सर्वायतचतुर्बाहुं सुजातरुचिराननं पद्मकोशपलाशाशं सुन्दरभ्रुसुनासिकम् शुद्विजं सुखं पोलास्यं समकर्णविभूषणं प्रीति प्रकसितापाघम् अलैकैरुपशोभितं लसत्पङ्कज किञ्जल्क दुकूलं मृष्टकुण्डलं पुरत्क्रीटवलय हारनूपुरमेकलम् शङ्खचक्रगता पद्मं मालामण्द्धमर्धिमत् सिंहस्कन्धत्विशोभिभ्रत् सौभग्रीवकौस्तुभम् श्रिया अनपायिन्या आशिप्तनिकशा स्मो रसोलस पूररेचक संविघ्न बलिवल्कुधलोधरं विश्वं नाप्या वर्धगभीरया श्यामश्रोण्यतिरोचिष्णो दुकूलस्वर्णमेकलम् समाचारभङ्ग्रिजङ्घोरो निम्नजानु सुदर्शनम् पदा शरत्पद्मपला सरोचिषा नगत्युपिर्नोऽन्तरघं विधुन्वता प्रदर्शय स्वीयमपास्तसात्वसं पदं कुरो मार्गकुरुस्तं मोजुषाम् एतद्रूपमनुध्येयम् आत्मशुद्धिम् अभीप्सता यत्भक्तियोगो भयथ स्वधर्ममनुतिष्ठतां भवान् भक्तिमथा लभ्यो दुर्लभः सर्वदेहिनां पाराजस्याभ्यभिमत एकान्तेन आत्मविद्गतेर् तं तुराराध्यम् आराध्य सतामभि दुरापया एकान्तभक्त्या पादमूलं विना बहिः यत्र निर्विष्टं मरणं कृतान्तो नाभिमन्यते विश्वं विद्वंसयन्वीर्य शौर्यविस्फूर्जितब्रुवां क्षणार्धेनापितुलये न स्वर्गं न पुनर्भवं मर्त्यानां किमुताशिषः अथा न गाङ्क्रेस्तव कीर्तितीर्थयो अन्तर्बहिस्नानविधूतपाप्मनां भूतेष्वनुक्रोश सुसत्त्वशीलिनां चित्तं बहिरर्थ तमो गुहायां च विशुद्धमावि सन् यद्भक्तियोगानुगृहीतं नद्यसा मुनिर्विचष्टेननु तत्र ते यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् तत्त्वं ब्रह्मपरं ज्योतेर् आकाशमैव विस्तृतम् यो माययेधं पुरुरूपया सृज विभर्ति भूय क्षपयत्य विक्रियः यद्भेदबुद्धिश दिवात्मतुस्तया तमात्मतन्त्रं भगवन्प्रतीमही क्रियाकलाभैरिधमेव योगिन श्रद्धान्विता साधु सिद्धये भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव गोविदाः त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया राजसत्त्वतमो विभिद्यते महानहं मरुधग्निवार्धरा सुरर्षयो भूतगणायुधं यतः सृष्टं स्वशक्त्येधम् अनुप्रविष्टश्चतुर्वितं पुरमात्मां सकेन अधोवितुस्तं पुरुषं सन्तमन्तर् हृषिकैर्मधुसारगं यः सगेशलोकानदि चण्डवेगो विकर्षसि त्वं कलुकालयानः भूतानि भूतै अनुमेय तत्त्वो घनावलिर्वायुरिवा अविषह्यः प्रमत्तमुश्चैरिति कृत्य चिन्त्या प्रवर्धलोपं विषयेषु लालसं त्वमप्रमत्तः सगसाभिबध्यसे शुल्ले कस्त्वत्पदाब्जं विजहादिपण्डितो यस्तेव मानव्ययमानकेतनः विशङ्क्ययास्मत् गुरुरश्च तिस्मयत् विनोपपत्तिं मनवश्चतुर्दश अत त्वमसि नो ब्रह्मन् परमात्मन् विपश्चितां विश्वं रुद्रभयद्वस्तम् अगुतश्चिद्भया गतिः इदं जपत भद्रं वो विशुद्धा अनुतिष्ठन्तो भगवत्यर्पितासायाः तमेवात्मानं आत्मस्तं सर्वभूतेष्वस्थितं पूजयध्वं कृणन्तश्च ध्यायन्तश्चासकृत् हरिम् योगादेशं उपासाद्य धारयन्तो मुनिव्रताः समाहि दधियः सर्व एतत् अभ्यसदादृताः इदमागपुरास्माकं भगवान् विश्वस्रुक्पतिः भ्रक्वादीनामात्मजानां शुश्रुश्रूसं ते वयं नोधिता सर्वे प्रजा सर्गे प्रजेश्वराः अनेन ध्वस्तदमसं शुश्रुष्मो विविता प्रजाः अतेधं नित्यधा युक्तो जपन्नवहितः पुमान् अचिराश्रेय आप्नोति वासुदेवपरायणः श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसम्परं सुखन्तरदि दुष्पारं ज्ञाननौर्व्यसनार्णवं यैमं श्रद्धया युक्तो मद्गीतं बकवत्स्तवं अदीयानो धुराराध्यं हरिम् आराधयति असौ विन्दते पुरुषोमुष्मात् यत्य इच्छत्य सत्परं मद्गीतगीतात् सुप्रीतात् श्रेयसा मेकवल्लभा इदं यः कल्य उत्थाय प्राञ्जलिश्रद्धयान्विदः शृणाया श्रावयेन्मर्त्यो उच्यते कर्मबन्धनैः गीतं मयेदं नरदेवनन्दन परस्य पुंसः परमात्मनस्तवं जपन्त एकाग्रतियस्तपो महत् शरद्वमन्तत आप्स्यतेऽप्सीतम् इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराजके जयम्